अत द्वितीयाष्टः तृतीयप्रश्नप्रारम्भः ओ ब्रह्मवादिनो वदन्ति किञ्चतुर्होतॄणाम् चतुर्होतृत्वमिति यदेवैषु चतुर्धा होतारः तेन चतुर्होतारः तस्माच्चतुर्होतार उच्यन्ते चतुर्होतृणाम् चतुर्होतृत्वम् सोमो वै चतुर्होता अग्निः पञ्चहोता धाता षड्ढोता इन्द्रः सप्तहोता प्रजापतिर्दश होता य एवम् चतुर्होतृणा वृद्धिम् वेद ऋध्नोत्येव य एषामेवम् बन्धुताम् बन्धुमान्भवति य एषामेवम् क्लृप्तिम् वेद कल्पतेऽस्मै य एषामेवमायतनम् वेद आयतनवान् भवति य एषामेवम् प्रतिष्ठाम् वेद प्राध्येव तिष्ठति ब्रह्मवादिनो वदन्ति दश होता चतुर्होता पञ्चहोता षड्ढोता सप्तहोता अथ कस्माच्चतुर्होतार उच्यन्त इति इन्द्रो वै चतुर्होता इन्द्रः खलु वै श्रेष्ठो देवतानामुपदेशनात् य एवमिन्द्रग्श्रेष्ठम् देवतानामुपदेशनाद् वेद वसिष्ठः समानानाम् भवति तस्माच्छ्रेष्ठमागन्तम् प्रथमेनैवानुबुध्यन्ते अयमागन् अयमवासादिति कीर्तिरस्य पूर्वा गच्छति जनतामागतः ततो येनम् प्रथमेनैवानुबुध्यन्ते अयमागन् अयमवासादिति दक्षिणाम् प्रतिग्रहेष्याम् दशकृत्वोपान्यात् आत्मानमेव समिन्धे तेजसेवीर्याय अथो प्रजापतिरेवैनाम् भूत्वा प्रतिगृह्णाति आत्मनो नार्त्यै निरहरे मार्त्विद्याद्धृतगुंसन्तम् निर्हरेरन् आग्ने ध्रेजु याग्दशहोतारम् चतुर्गृहीतेनाज्येन व्रस्तात् प्रत्यङ्गतिष्ठन् प्रतिलोमम् निग्राहम् प्राणानेवास्योपदासयति यद्येन पुनरुपशिक्षेयुः आग्नेयेध्य एव जुहुयाग्दशहोतारम् चतुर्गृहीतेनाज्येन पश्चात्प्रागासीनः अनुलोमम विग्राहम् प्राणानेवास्मै कल्पयति प्रायश्चित्तीवाग्होतेत्यऋतुमुखऋतुमुखे जुहोति ऋतोनेवास्मै कल्पयति कल्पन्तेऽस्मा ऋतवः कर्ता अस्मा ऋतव आयन्ति षड्ढोता वै भूत्वा प्रजापतिरिदगम् सर्वमसृजत समनोऽसृजत मनसोऽधिगायत्रीमसृजत तद्गायत्रीम् ग आर्च्छत् कामालभत गायत्र्याधिछन्दागस्य सृजत छन्दोभ्योऽधिसाम तत्साम यश आर्च्छत् तदालभत साम्नोधि यजु यजोगिष्यसृजत यजुर्भ्योऽधिविष्णुम् तद्विष्णम् यश आर्च्छत तमालभत विष्णोरध्योऽषधीरसृजत ओषधीभ्योऽधि सोमम् तत्सोमम् यश आर्च्छत् तमालभत सोमादधिपशो न सृजत पशुभ्योऽधीन्द्रम् तदिन्द्रम् यश आर्धत् तदेनन्नातिप्राच्यवत इन्द्र इव यशस्मि भवति य एवम् वेद नैनम् यशोऽतिप्रच्यवते यद्वा इदम् किम् च तदेनम् प्रतिगृहीतन्नाहिनत् यत्किञ्च प्रतिगृह्णीयात् तत्सर्वमुत्थानस्त्वाङ्गेरसः प्रतिगृह्णात्वित्येव प्रतिगृह्णीयात् इयम् वा उत्थान आङ्गीरसः अनयैवैनत्प्रतिगृह्णाति नैनगृह्हिणस्ति बर्हिषा प्रतियाद्गाम् वाश्वम् वा एतद्वै पशूनाम् प्रियम् धाम प्रियेणैवै नन्धाम् प्रिये नाप्रत्येति यो वा अविद्वान्निवर्तयते ईशीर्षासपाप्मामुष्म्यम् लोके भवति अथ यो विद्वान्निवर्तयते सशीर्षादिपा आप्मामुष्म्यम् लोके भवति देवता वै सप्त अग्निश्च पृथिवी च वायुश्चान्तरिक्षम् च आदित्यश्च द्यौश्च चन्द्रमाः अग्निर्ण्यवर्तयत ससाहस्रमपुष्यत् पृथिवीन्यवर्तयत सौषधेभिर्वनस्पतिभिरपुष्यत् वायुन्यवर्तयत समरीचीभिरपुष्यत् अन्तरिक्षण्यवर्तयत तद्वयोभिरपुष्यत् आदित्योऽन्यवर्तयत स रश्मिभिरपुष्यत् योऽन्यवर्तयत सा नक्षत्रैरपुष्यत् चन्द्रमान्यवर्तयत सोः रात्रैरर्धमासैर्मासैर् ऋतुभिः संवत्सरेणापुष्यत् तान् पोषान्पुष्यति यागस्ते पुष्यन् य एवम् विद्वान् च वर्तयते परिच तस्य वा अग्ने हिरण्यम् प्रति जग्रहुषः अर्धमिन्द्रियस्यापाक्रामत् तदेतेनैव प्रत्यगृह्णात् तेन वेसोऽर्धमिन्द्रियस्यात्मन्नुपाधत्त अर्धमिन्द्रियस्यात्मन्नुपाधत्ते य एवम् विद्वान् हिरण्यम् प्रति असयो विद्वान् प्रति अर्धमस्येन्द्रियस्यापक्रामति तस्य वै सोमस्य वासः प्रतिजग्रहुषः तृतीयमिन्द्रियस्यापाक्रामत् तदेतेनैव प्रत्यगृह्णात् तेन वै स तृतीयमिन्द्रियस्यात्मन्नुपाधत्ता तृतीयमिन्द्रियस्यात्मन्नुपाधत्ते य एवम् विद्वान् वासः प्रतिगृह्णाति अथजो विद्वान् प्रति गृह्णाति तृतीयमस्येन्द्रियस्यापक्रामति तस्य वै रुद्रस्य गाम् प्रति जग्रघुषः चतुर्थमिन्द्रियस्यापाक्रामत् तामेतेनैव प्रत्यगृह्णात् तेन वै स चतुर्थमिन्द्रियस्यात्मन्नुपाधत्ता चतुर्थमिन्द्रियस्यात्मन्नुपाधत्ते य एवम् विद्वान् गाम् प्रति गृह्णाति अथयो विद्वान् प्रति गृह्णाति चतुर्थमस्येन्द्रियस्यापक्रामति तस्य वैव रुणस्याश्वम् प्रति जग्रघुषः पञ्चममिन्द्रियस्यापाक्रामत् तमेतेनैव प्रत्यगृह्णान् तेन वै स पञ्चममिन्द्रियस्यात्मनुपाधत्ता पञ्चममिन्द्रियस्यात्मन्नुपाधत्ते न एवम् विद्वानस्वम् प्रति गृह्णाति अथयो विद्वान् प्रति गृह्णाति पञ्चममस्येन्द्रियस्यापक्रामति तस्य मे प्रजापतेः पुरुषम् प्रति जग्रहुषः षष्ठमिन्द्रियस्यापारक्रामत् तमेतेनैव तेन वैष षष्ठमिन्द्रियस्यात्मन्नुपाधत्त षष्ठमिन्द्रियस्यात्मन्नुपाधत्ते य एवम् विद्वान् पुरुषम् प्रति गृह्णाति अथ च विद्वान् प्रति गृह्णाति षष्ठमस्येन्द्रियस्यापक्रामति तस्य वै मनोस्तल्पम् प्रति जग्रघुषः सप्तममिन्द्रियस्यापाक्रामत् तमेतेनैव प्रत्यगृह्णात् तेन वै स सप्तममिन्द्रियस्यात्मन्नुपाधत्त सप्तममिन्द्रियस्यात्मन्नुपाधत्ते य एवम् विद्वान् प्रतिगृह्णाति सप्तममस्येन्द्रियस्यापक्रामति तस्य वा उत्तानस्याङ्गे रसस्याप्राणप्रतिजग्रहुषः अष्टममिन्द्रियस्यापाक्रामत् तदेतेनैव प्रत्यगृह्णात् तेन वेसो अष्टममिन्द्रियस्यात्मन्नुपाधत्त अष्टममिन्द्रियस्यात्मन्नुपाधत्ते य एवम् विद्वानप्राणः प्रतिगृह्णाति अथ चो विद्वान्प्रतिगृह्णाति अष्टममस्येन्द्रियस्यापक्रामति यद्वा इदम् किञ्च तत्सर्वमुत्थान एवाङ्गे रसः प्रत्यगृह्णात् तदेनम् प्रतिगृहीतन्नाहिनत् यत्किञ्च प्रतिगृह्णीयात् तत्सर्वमुत्थानस्त्वाङ्गे रसः प्रतिगृह्णात् यत्येव प्रतिगृह्णीयात् इयम् वा उत्थान आङ्गेरसः अनयैवैन प्रतिगृह्णाति नैनगृह्निनस्ति ब्रह्मवादिनो वदन्ति यद्दशहोदारः सत्रमासत केन ते गृहपतिनार्ध्वन् केन प्रजा असृजन्तेति प्रजापतिना वैते गृहपतिनार्ध्वन् तेन प्रजा असृजन्त यच्चतुरहोदारः सत्रमासत केन ते गृहपतिनार्ध्वन् केनौषधेरसृजन्तेति सोमेन वैते गृहपतिनार्ध्वन् तेन औषधीरसृजन्त यत्पञ्चहोतारः सत्रवासत केन ते, ते, ते गृहपतिनार्ध्रुवन् केनैभ्यो लोकेभ्योऽसुरान् प्राणुदन्त केनैषाम् पशू न भृञ्जतेति अग्निना वैते गृहपतिनार्ध्रुवन् केनैभ्यो लोकेभ्योऽसुरान् प्राणुदन्त तेनैषाम् पशू न यच्छड्ढोतारः सत्रमासत केन ते गृहपदिनार्ध्रुवन् के नर्तू न कल्पयन्तेति धात्रावैते गृहपदिनार्ध्रुवन् ते नर्तू न कल्पयन्त यत्सप्तहोतारः सत्रमासत केन ते गृहपदिनार्ध्रुवन् केन सुपराजन् केनेमाल्लोकान् समतम् वन्मिति अर्यम्णा वै ते गृहपतिनाध्रुवन् तेन सुवरायन् तेनेवान् लोकान् समतम् वन्वि ये ते वै देवा गृहपतयः तान् एवम् विद्वान् अप्यन्यस्य गार्हपते दीक्षते अवान्तरमेव सत्रिणा मृध्नोति यो वा अर्यमणम् वेद तानकामा अस्मै प्रजा भवन्ति यज्ञो वा अर्यमा आर्यावसतिरिति वैतमाहुर्यम् पृशगुंसन्ति आर्यावसतिर्भवति य एवम् वेद यद्वा इदम् किञ्च तत्सर्वम् चतुर्होतारः चतुर्होतृभ्योऽधियज्ञो निर्मितः स य एवम् विद्वान् विवदेत अहमेव भूयो वेद यश्चतुर्होत्रेन वेदेति सह्येव भोजो वेद यश्चतुर्होदृ न वेद यो वै चतुर्होतृणागुम्भोदृ न वेद सर्वा सुप्रजास्वन्नमत्ति सर्वादिशोऽभिजयति प्रजापतिर्वै दशहोतृणागुम्भूता सोमश्चतुर्होतृणागुम्भूता अग्निः पञ्चहोतृणागुम्भूता धाता षड्ढोतृणागुम्भूता अर्यमासप्तहोतृणागुम् होता एतेऽपि चतुर्होतृणागुम् होतारः ताल्य एवम् वेद सर्वासु प्रजास्वन्नमत्ति सर्वादिशोऽभिजयति प्रजापतिः प्रजा सृष्ट्वाभ्यस्रगुम्सत सहृदयम् भूतोऽशयत् आत्मनः आपः प्रत्यशृण्वन् ता अग्निहोत्रेणैव यज्ञक्रतुनोपपर्यावर्तन्त ताः यज्ञक्रतोः एकऋत्विक् चतुष्कृत्वोह्वयत् अग्निर्वाजुरादित्यश्चन्द्रमाः ते प्रत्यशृण्वन् ते दर्शपूर्णमासाभ्यामेव यज्ञक्रतुनोपपर्यावर्तन्त त उपो हग्निश्चत्वार्यङ्गानि तस्माद्दर्शपूर्णभासयोर्यज्ञक्रतोः चत्वारऋत्विजः तस्मा पञ्चक्रतोऽह्वयत् चत्वार वशभः प्रत्यशृण्वन् ते चादुर्मास्यैरेव यज्ञक्रतुनोपपर्यावर्तन्त त उपोहं लोमच्छवी मागुम् समस्थ्यमज्जानम् तस्माच्च दुर्मास्यानान्यज्ञक्रतोः परञ्चर्त्तिजः षक्रत्वोह्वयत् ऋतवः प्रत्यशृण्वन् ते पशुबन्धेनैव यज्ञक्रतु नोपपर्यावर्तन्त त उपो हांस्तना पाण्डौ शिष्यमवाञ्चम् प्राणम् तस्मात् पशुबन्धस्य यज्ञक्रतोः षडृत्विजः सप्तकर्तो यत् होत्राः प्रत्यशृण्वन् ताः सौम्येनैवाध्वरेण यज्ञक्रतुनोपपर्यावर्तन्त ता उपौहान् सप्तशीर्षण्यान् प्राणान् तस्मात् सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तहोत्राः प्राचेर्वचः कुर्वन्ति दशकर्तोऽह्वयत् तपः प्रत्यशृणात् तत्कर्मणैव संवत्सरेण सर्वैर्यज्ञक्रतुभिरुपपर्यावर्तत तत्सर्वमात्मानमपरिवर्गमुपोहत् तस्मात्संवत्सरे सर्वे यज्ञक्रतवोवरुध्यन्ते तस्माद् दश होता चतुर्होता पञ्चहोता षड्ढोता सप्तहोता एकहोत्रे बलिगम् हरन्ति हरन्त्यस्मै प्रजाबलिम् ऐरमप्रतिख्यातम् गच्छति य एवम् वेद प्रजापतिः पुरुषमसृज सोऽग्निरब्रवीत् म मायमन्नमस्ति स्वबिभेत् सर्वम् वै मायम् स एतागिश्चतुर्होत्रेनात्मस्मरणानपश्यत् का न जुहोत् तैरवै स आत्मानमस्पृणोत् यदग्निहोत्रम् जुहोति एकहोतारमेव तद्यज्ञक्रतुमाप्नोत्यग्निहोत्रम् कुसिन्धम् चात्मन स्पृणोति आदित्यस्य च सादिज्यम् गच्छति चतुरम् नयति चतुरहोदारमेव तद्यज्ञक्रतुमाप्नोति दि दर्शपूर्णभासौ चत्वारि चात्मनाङ्गानि स्पृणोति आदित्यस्य च सादिज्यम् गच्छति चतुरनयति समिक्पञ्चमी पञ्चहोदारमेव तद्यज्ञक्रतुमाप्नोति चातुर्भास्यानि को वच्छमीम् मागुम् तानि चात्मनः आदित्यस्य चसायुज्यम् गच्छति चतुरुन्नयति द्विर्जिहोति षडोतारमेव तद्यज्ञक्रतुमा आप्नोति पशुबन्धम् स्तनाभाण्डौ शिष्यममा अञ्चम् प्राणम् तानि चात्मन स्पृणोति आदित्यस्य चयुज्यम् गच्छति चतुरुन्नयति द्विर्जिहोति सन्निक्सप्तमी सप्त होतारमेव तद्यज्ञक्रतुमा आप्नोति सौम्यमध्वरम् सप्तथात्मनः शीर्षण्याम् प्राणान् आदित्यस्य च सायुज्यम् गच्छति चतुर्नयति द्वेर्जुहोति द्विर्मिमा दशहोदारमेव तद्यज्ञक्रतुमा आप्नोति संवत्सरम् सर्वम् चात्मानमपरिवर्गभ्यः स्पृणोति आदित्यस्य च प्रजापतिरकामयत प्रजा येजेति सर्वोदप्यत सोऽम् दर्वानभवत् स तस्मात् स्त्रियम् तर्वत्नी हरिणी सती स विजानो गर्भेणाताम् यत् स तान्दः कृष्णश्यावोभवत् तस्मात्तान्दः कृष्णश्यावो भवति तस्यासुरे वा जीवत् तेनासुरासुरान्सृजत तदसुराणामसुरत्वम् य एवमसुराणामसुरत्वम् वेद असुमानेव भवति नैनमसृजहाति सोऽसुरान् सृष्ट्वापि तेवामन्यत तदनुपितरेण सृजत तत्पितृणाम् पितृत्वम् य एवम् पितृणाम् पितृत्वम् वेद पिते वस्वानाम् भवति यन्त्यस्य पितरोहवम् स पितृम् सृष्ट्वा मनस्यते तदनुमनुष्यासृजत तन्मनुष्याणाम् मनुष्यत्वम् य एवम् मनुष्याणाम् मनुष्यत्वम् वेद मनस्येव भवति नैनम् ना मनुर्जहाति तस्मै मनुष्याम् ससृजानाय दिवा देवत्राभवत् तदनुदेवानसृजत तद्देवाना अन्धेभक्त्वा य एवम् देवाना अन्धे भक्त्वम् वेद दिवाहैवास्य देवत्रा भवति तानि वा एतानि चत्वार्यम् भागुंसि देवामनुष्याः तेषु सर्वेष्वम् भो नभरिव भवति य एवम् वेद ब्रह्मवादिनो वदन्ति यो वा इमम् विद्यात् यतोऽयम् पवते यदभिपवते यदभिसम्पवते सर्वमायुर्यात् न गुरायुषः प्रमीजेत पशुमान् स्यात् निन्देत प्रजाम् यो वा इमम् वेद यतोऽयम् पवते यदभिपवते यदभिसम्पवते सर्वमायुरेति न पुरायुषः प्रमीयते पुशुमान्भरति विन्दते प्रजाम् अद्भ्यः पवते अपोऽभिपवते अपोभि सम्पवते अस्याः पवते इमामभिपवते इमामभिसम्पवते अग्नेः पवते अग्निमभिपवते अग्निमभिसम्पवते अन्तरिक्षात्पवते अन्तरिक्षमभिपवते अन्तरिक्षमभिसम्पवते आदित्यात्पवते आदित्यमभिपवते आदित्यमभिसम्पवते दिवोः पवते दिवमभिपवते दिवमभिसम्पवते दिग्भ्यः पवते दिशोऽभिपवते दिशोऽभिसम्भवते स यत्पुरस्ताद्वाति प्राण एव भूत्वा पुरस्ताद्वाति तस्मात्पुरस्ताद्वान्तम् सर्वाः प्रजाः प्रतिनन्दन्ति प्राणो हि प्रियः प्रजानाः प्राण इव प्रियः प्रजानाम् भवति य एवम् वेद स वा एष प्राण एव अथ यद्दक्षिणतो वाति मातरिष्वैव भूत्वा दक्षिणतो वाति तस्माद्दक्षिणतो वान्तम् विद्यात् सर्वादिश आवाति सर्वादिशो नु विभाति सर्वादिशो नु सम्भातीति सर्वा एष मातरिष्वैव अथ यत्पश्चाद्वाति पवमान पश्चाद्वाति पूतमस्मा आहरन्ति पूतमुपहरन्ति पूतमश्नाति य एवम् वेद स वा एष पवमान एव अथगदुत्तरतो वाति सवितैव भूत्वोत्तरतो वाति सवितेवस्मानाम् भवति य एवम् वेद स वा एष सवितैव ते य एनम् पुरस्तादयन्तमुपवदन्ति य एवास्य पुरस्तात्पाप्मानः तागस्ते बघ्नन्ति पुरस्तादितरान्पाप्मनः सचन्ते अथ यनम् दक्षिणत आयन्तमुपवदन्ति य एवास्य दक्षिणतः पाप्मानः तागस्तेऽपघ्नन्ति दक्षिणत इतरान्पाप्मनः सचन्ते अथ एनम् य एवास्य पश्चात्पाप्मानः तागस्तेऽपघ्नन्ति पश्चादितरान् पाप्मनः सचन्ते अय एनमुत्तरत आयन्तमुपवदन्ति य एवास्योत्तरतः पाप्मानः तागस्तेऽपघ्नन्ति उत्तरत इतरान् पाप्मनः सचन्ते तस्मादेवम् विद्वान् देवनृत्ये ेव यस्ये वाक्ष्यौ भाषेत मण्टयेदि वा क्राथये दिव श्रृङ्गाये देव उतमोपपदेयोः उत मे पाप्मानमपहन्युरिति स यान्ति्याम् स्यात् यदा दान्दिसंवातोपायात् अथ प्रभेयात् प्रबाधा भयेत् सातमे तमेव रदितम् व्यूढम् गन्धमभिप्रच्यपते आस्यतम् जनपदम् पूर्वाकीर्त्यर्गच्छति दानकामा अस्मै प्रजा भवन्ति य एवम् वेद प्रजापतिः सोमकुम् राजानमसृजत तन्द्रयो वेदा, वेदा अन्वसृज्यन्त तानि हस्ते कुरुत अथ सावित्री सोमगुम् राजानञ्चकमे श्रद्धामुसचकमे साह पितरम् प्रजापतिमुपससार प्रगुम्होवाच नमस्ते अस्तु भगवः उपत्वायानि प्रक्त्वापद्ये सोमम् वैराजानङ्कामये श्रद्धामुसकामयत इति तस्या उहस्थागरमलङ्कारम् कल्पयित्वा दशहोतारम् पुरस्ताद्व्याख्याय चतुर्होतारम् दक्षिणतः पञ्चहोतारम् पश्चात् षड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टाद् सम्भारैश्च पत्निभिश्च मुखेऽलङ्कृत्य आस्यार्धम् वग्राज तागुम्भो दीक्ष्योवाच उपमावर्तस्येति तगुम्भोवाच भोगन्तु म आचक्ष्व एतन्म आचक्ष्व यत्ते पाणाविति तस्या उहत्री वेदान् प्रददौ तस्मादुहस्त्रियो भोगमैव हारयन्ते स यः कामयेतप्रियः स्यामिति यम् वा कामयेतप्रियः स्यादिति तस्मा एतद्व्यस्थाकरमलङ्कारम् कल्पयित्वा दशहोदारम् पुरस्ताद्याख्याय चतुर्होदारम् दक्षिणतः पञ्चहोदारम् पश्चात् षड्ढोदारमुत्तरतः सप्तहोदारमुपरिष्टात् सम्भारैश्च पत्नीभिश्च मुखे लङ्कृत्य आस्यार्धम् व्रजेत् प्रयोहैव भवति ब्रह्मात्मन्वदसृजत सोऽकामयत समात्मना पद्येजेति आत्मन्नात्मन्नित्यामन्त्रगता तस्मै दशमगुम्भूतः प्रत्यशृणोत् स दशभूतो भवत् दशहूतो हवैरामैषः तम् वा एतम् दशहोतकुम् सन्तम् दशहोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् होतः प्रत्यशृणा स सप्तहोतो भवत् सप्त होतो हवैनामैषः तम् वा एतगुम् सप्तहोतगुम् सन्तम् सप्त होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुम्भोतः प्रत्यशृणा स षड्ढोतो भवत् षड्ढोतो हवैनामैषः तम् वा एतगुम् षड्भूतगुम् सन्तम् षड्भूतेत्याचक्षते परोक्षेण परोक्षप्रियादिवहि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम्होतः प्रत्यशृणा स पञ्चहोतोऽभवत् पञ्चहोतो हवैनामैषः तम् वा एतम् पञ्चहोतकम् सन्तम् पञ्चहोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थकम् होतः प्रत्यशृणात् स चतुर्होतो भवत् चतुर्होतो हवैनामैषः तम् वा एतम् चतुर्होतपुंसन्तम् चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवीत् त्वम् वै मेनेतिष्ठगम् होतः प्रत्यश्रौषीः त्वयैनाख्यातार इति तस्मान्द्वयीनाविश्चतुर्होतार इत्याचक्षते तस्माच्छुश्रूषः पुत्रा नागम् हृद्यतमः नेदिष्ठो हृद्यतमः नेदिष्ठो ब्रह्मणो भवति य एवम् वेद ओ इति द्वितीयाष्टक तृतीयप्रश्नः समाप्तः